नमस्सर्वेभ्यः अस्माकं जीवनम् इति वर्गे भवतां सर्वेषां स्वागतं तर्हि अत्र यः साधकः अस्ति यः आध्यात्मिकजीवने यः प्रवेशं कृतवान् तत्र अग्रगतिं प्राप्तुं त्रयः विषयाः मुख्यविषयः त्रयः बिन्दवः बहु मुख्याः सन्ति अग्रगतिं प्राप्तुं ते ते इति चेत् प्रथमतया प्रणिपातः प्रणिपातः प्रणिपातः इत्युक्ते कः इति चेत् आत्मसमर्पणं प्रणिपातः इत्युक्ते आत्मसमर्पणम् अत्र प्रणिपातः इत्यत्र प्रोपसर्गपूर्वकः नीधातुः उप प्रोपसर्गपूर्वकः नी, नी, नी उपसर्गपूर्वकः पत्धातुतः घञ् प्रत्ययः प्रणिपातः तर्हि प्रणिपातः इत्यस्य अर्थः आत्मसमर्पणम् इति तर्हि तस्य अर्थः कः इति चेत् यदि अस्मासु तत्र किञ्चिदपि अहङ्कारः वर्तते चेत् तदानीं तेन अग्रगतिः न अग्रगतिः न भवति इत्युक्ते यः अहङ्कारी अस्ति सः एव अस्मिन् लोके महान् मूर्खः अस्ति मनुषेषु अहङ्कार अहङ्कार अहङ्कार अहङ्कारः किमर्थम् आयाति इति चेत् तत्तु मम बुद्धिः अधिकम् अधिकबुद्धिः अस्ति इति कृत्वा अहङ्कारः भवितुमर्हति मम पार्श्वे अधिकं धनम् इति कृत्वा अहङ्कारः भवितुमर्हति अथवा अथवा अहं सम्यक्तया लेखितुं शक्नोमि अथवा अहं यत्किमपि करोमि तत्र मम पाण्डित्यम् अस्ति इति कृत्वा तत्र अहङ्कारः अस्माभिः दृश्यते खलु लोके भिन्नभिन्नकारणैः अहङ्कारः जायते अस्माकं मस्तिष्कः यः मस्तिष्कः अस्ति सः तु बहु लघु अस्ति तस्मिन् कियती बुद्धिः तस्मिन् बुद्धिः तु अधिका नास्ति तत्र इत्युक्ते परमपुरुषस्य बुद्धिः सः तु सर्वज्ञः अस्ति तस्य अपेक्षया अस्माकं बुद्धिः बहु न्यूना एव अस्ति खलु तथापि अपि तथापि अस्माकम् अहङ्कारः अस्ति ओ अहं बुद्धिमान् अस्मि अहं बुद्धिमती अस्मि इति अहङ्कारः अस्माकम् अस्ति तर्हि तर्हि यः यस्य पुरुषस्य अहङ्कारः अस्ति यस्य पुष् पुरुषस्य गर्वः अस्ति वस्तुतः सः एव लोके बुद्धिविहीनः अस्ति बुद्धिविहीनः अस्ति किमर्थं बुद्धिविहीनः अस्ति इति इति चेत् सः सः सः एव सर्वं करोति इति चिन्तयति अहङ्कारेण सः चिन्तयति एव सर्वं करोति इति परन्तु सः न जानाति यत् अस्मिन् लोके यः यद् तृणम् अस्ति तदपि न चलति परमपुरुषस्य कृपां विना तृणमपि न चलति अतः यः साधकः अस्ति तस्य कृते आत्मसमर्पणं बहु मुख्यं बहु मुख्यः विषयः वर्तते आत्मसमर्पणम् आत्मसमर्पणं नास् नाम यत्किमपि अहं करोमि तत्तु ब्रह्मभावं स्वीकृत्य करोमि अहं तु ब्रह्मणः ब्रह्मणः कृते अहं कार्यं करोमि अहं तस्य यन्त्रम् अस्मि तस्य यन्त्रम् अस्ति यस् अस्मि इति भावः भवेत् यदा यदा आत्मसमर्पणस्य भावः अस्ति यत्किमपि करोति सः परमपुरुषः एव करोति सम्पूर्णरीत्या आत्मसमर्पणं यदा भवति तदानीम् अग्रगतिः निश्चयेन भवति यदा वयं चिन्तयामः किम् इत्युक्ते अहमेव अहं करोमि इत्युक्ते मनसि तत्र काचित् शङ्का यदा जायते आ, ओ परमपुरुष अस्ति अहमपि अस्मि अहं मम प्रयत्नेन किमपि करोमि इति यदा भावः भवति तदानीम् अहङ्कारः आयाति तर्हि यत्र तादृश अहङ्कारभावः नास्ति आत्मसमर्पणभावः अस्ति तदानीम् अग्रगतिः सम्यक्तया भवति इत्युक्ते तदर्थं तत्र द्रौपद्याः तत्र यदा वस्त्राहरणं जातमासीत् तदानीं तया प्रथमतया तत्र सर्वेषाम् आह्वानं कृतवती तस्य तस्य पत् पत् पतेः पत्युः आह्वानं कृतवती अनन्तरम् अन्ये ये सभायाम् अन्ये ये जनाः आसन् तेषाम् आह्वानं कृतवती परन्तु तत्र कोऽपि लाभः नासीत् अनन्तरं स्वयमपि प्रयत्नं कृतवती परन्तु तदानीमपि लाभः नासीत् अनन्तरं किं कृतवती सर्वं त्यक्तवती हस्तं हस्तम् उन्नीय केवलं कृष्णस्य नाम नाम आह्वानं कृतवती तदानीं किं जायते तदानीं किं जातम् इति चेत् तदानीं परमपुरुषः झटिति कृष्णः झटिति आगतवान् तर्हि तत्र आत्मसमर्पणभावः यदा आग द्रौपद्यां यदा आत्मसमर्पणः भावः द्रौपद्यां भावः आगतः तदानीं तत्र कार्यं झटिति जातं यदा आत्मसमर्पणः भावः नास्ति तदानीं कार्ये विलम्बः जायते साधकस्य जीवने अपि विलम्बः जायते यः मुमुक्षुः अस्ति मुक्तुम् इच्छति यस्य मुक्त्याकाङ्क्षा वर्तते यदि तस्य मनसि आत्मसमर्पणभावः नास्ति तदानीम् अग्रगतिः तत्र क्लेशः एव भवति अग्रगतिं प्राप्तुं क्लेशः एव भवति आत्मसमर्पणः भावः बहु मुख्यः विषयः अस्ति तदेव प्रणिपातः इति वयं वदामः सम्पूर्णरीत्या प्रणिपातः अनन्तरं द्वितीयः अस्ति अग्रगतिं प्राप्तुं परिप्रश्नः परिप्रश्नः इत्युक्ते अत्र अस्मिन् जगति बहवः ज्ञानिनः सन्ति यः जडज्ञानी अस्ति केवलं केवलं पठति पठति अधिकं पठति अधिकम् अधिकं, अधिकं, अधिकं जानाति परन्तु हृदये भक्तिभावः नास्ति तर्हितः सः युनो कदाचित् सः प्रश्नं पृच्छति किमर्थं पृच्छति तस्य पाण्डित्यस्य प्रदर्शनार्थं पृच्छति प्रश्नम् एवमेव वयं पश्यामः अत्र बहु अस्मिन् लोके बहवः एतादृशजनाः सन्ति ये केवलं प्रश्नं पृच्छति केवलं प्रदर्शनार्थं यत् अहं महान् अस्मि अहं अहं सर्वं जानामि इति भावं प्रदर्शयितुं कदाचित् एत एतादृशप्रश्नाः ते पृच्छन्ति अपि च तत्र कदाचित् किं भवति इति चेत् यः शिक्षकः अस्ति सः जानाति वा न वा इति परीक्षणार्थमपि केचन जनाः पृच्छन्ति ओ अहं पृच्छामि अहं पृच्छामि अहं पश्यामि यः शिक्षकः अस्ति सः जानाति वा इति अहं पश्यामि इति कृत्वा अपि केचन जनाः प्रश्नं कुर्वन्ति इति एवं रीत्या वयं बहुधा वयं द्रष्टुं शक्नुमः परन्तु अत्र अग्रगतिं प्राप्तुं न केवलं णिपातः इत्यस्य आवश्यकता अस्ति परन्तु परिप्रश्नः इत्यपि मुख्यः विषयः अस्ति परिप्रश्नः इत्युक्ते अस्माभिः तादृशप्रश्नाः एव कर्तव्याः यैः अस्माकम् आध्यात्मिक अग्रगतिः भवति यदि यदि प्रश्नस्य उत्तरं वयं प्राप्नुमः तेन उत्तरेण अस्माकम् अग्रगतिः भवति चेत् तादृशप्रश्नः परिप्रश्नः अस्ति केवलं केवलं तत्र अन्ये अन्ये अन्ये पश्यन्तु अहं महान् अहं महान्तं प्रश्नं पृच्छामि इति प्रदर्शनार्थं वयं पृच्छामः चेत् तेन न कोऽपि लाभः तेन किं भवति इति चेत् अस्माकं समयस्य व्ययः अस्ति यतोहि अस्माभिः किमपि न लभ्यते तेन तादृशप्रश्नेन अस्माभिः तत्र किमपि न लभ्यते अनन्तरं यः उत्तरं ददाति यः शिक्षकः वा यः अन्य कोऽपि अस्ति यः उत्तरं ददाति तस्य समयस्य व्ययः अपि भवति अतः अस्माभिः केवलं यः साधकः अस्ति यः अग्रगतिं प्राप्तुम् इच्छति यः मुक्तुम् तस्य कृते बहु मुख्यः विषयः अस्ति यत् सः केवलं तादृशप्रश्नम् एव पृच्छेत् येन तस्य अग्रगतिः अग्रगतिः भवति नो यदि तत्र उत्तरेण यदि कोऽपि तत्र शिक्षकः अस्ति सः किमपि वदति तेन उत्तरेण तस्य अग्रगतिः भवति इत्युक्ते यद् उत्तरम् उक्तं तस्य तस्य आनयनं स्वजीवने सः कर्तुं शक्नोति चेत् तदानीं महान् लाभः अस्ति एवं न ना, नास्ति केवलम् अहं पृच्छामि तत्र केवलं मम जिज्ञासा अस्ति केवलं तत्र किमपि ज्ञातुम् इच्छामि तादृशप्रश्नः तादृशप्रश्नेन को आ, तादर्षा प्रश्ना, तादर्षा तादर्षा न कोऽपि लाभः अस्ति केवलं प्रदर्शनार्थं भवितुमर्हति अथवा केवलं तत्र अहङ्कारार्थं तादृशप्रश्नाः भवन्ति परन्तु यः वास्तविकः भक्तः अस्ति सः केवलं तादृशः प्रश्न तादृशप्रश्नमेव सः पृच्छति येन तस्य आध्यात्मिक उन्नतिः भवति अतः द्वितीयः विषयः अस्ति साधकस्य जीवने प्रथमः अस्ति प्रणिपातः द्वितीयः अस्ति परिप्रश्नः अनन्तरं तृतीयः विषयः अस्ति सेवा सेवायाः विषये मया पूर्वमपि चर्चितमासीत् तर्हि सेवा इत्युक्ते किं सेवा सेवा इत्युक्ते का इति चेत् तत्र यदा अहं किमपि करोमि अन्यस्य कृते अन्यस्य कृते किमपि करोमि किमपि तस्य तस्य यदा अहं किमपि ददामि पुनः यं प्रति अहं ददामि यस्मै ददामि तेभ्यः किमपि प्राप्तुं न इच्छामि केवलम् अहं ददामि वन् सैडेड् वन अस्ति नाट् टु सैडेड् टु सैडेड् अस्ति चेत् द्विस्तरीयः हस्ति चेत् तदानीं तत्तु व्यापारः भवति इदानीम् अद्यत्वे लोके एतादृश बहवः संस्थाः सन्ति ते किं कुर्वन्ति इति चेत् ते वदन्ति o oh, vayam we are in the business we are in the, the we are in the service of we are, we are servicing for the last 20 years etam ritya kimapi kimapi kim api vadanti parantu vastutah tattus sarve snasika tu seva nasti tat tu vyaparah asti vyaparah asti te vyaparam kurvanti ye ate kimapi kurvanti karyam kurvanti tasya krute kimapi tatra danam asi kurvanti kalu yadi te kimapi karyam kurvanti tadane तत् कार्यं कृत्वा तदनन्तरं धनं स्वीकु स्वीकुर्वन्ति अतः तत्तु सेवा न भवितुम् अर्हति सेवा इत्युक्ते वयं यद् अन्यस्य कृते किमपि कुर्मः परन्तु तत् तत्र तस्मात् अथवा तेभ्यः किमपि न स्वीकुर्मः धनं वा यत्किमपि न स्वीकुर्मः अस्माकं मनसि तादृशभावना अपि न भवति यद् ओ मया एतत् मया धनं दत्तं तस्य तत् तदर्थं अहं मम मम नाम पत्रिकायां भवतु मया एतद् एतद् एतद्धनं दत्तं तदर्थं मम मम नाम पत्रिकायां भवतु इति एतादृश एतादृश अभिलाषा अभिलाषा भवति अभिलाषा तत्र न भवति मनसि अभिलाषा न भवति अपि च भौतिकस्तरे अपि किमपि न स्वीकरोति तादृश तत्र विज्ञापने अथवा अन्यत्र कुत्रापि मम भवतु इति आशङ्का नास्ति इति एवं रीत्या सेवा सेवा तु भवति इति अस्माभिः ज्ञायते तत्र विप्रोचित् सेवा क्षत्रियोचित्सेवा वैश्योचित्सेवा अनन्तरं शूद्रोचित्सेवा विप्रोचित् सेवा, सेवा, सेवा।, विप्रोचित सेवा इत्युक्ते यथा तत्र अन्यस्य कृते युगनिष्ठजीवनस्य पाठनं कुर्मः अन्यः अपि जानातु इति कृत्वा यदा वयं पाठनं कुर्मः तदेव अस्ति अध्यापनं यत् कुर्मः तदेव विप्रोचित् सेवा एतत्तु महान् महान् महत् कार्यं वर्तते विप्रोचित् सेवा इति महती कार्यं वर्तते यतोहि विप्रोचित् विप्रोचित् सेवायां यद्वयं दद्मः तत्तु निरन्तरमस्ति यतोहि तस्य यः तत्र पाठं स्वीकरोति यः पठति तस्य जीवने परिवर्तनम् आयाति तत्र महत्परिवर्तनम् आयाति इति कृत्वा विप्रोचित् सेवा बहु मुख्यकार्यं वर्तते अनन्तरम् अत्र अस्ति क्षत्रियोचित् सेवा क्षत्रियोचित् सेवा नाम यदि कोऽपि ना... विप्रो विप्रोचित् सेवा विप्रोचित् सेवा इत्युक्ते प्रथमविप्रोचित् सेवा विप्रोचित् विप्रः विप्रोचित् विप्र विप्रस्य Uh, विप्रः इव उचितः सेवा अथवा uh, विप्र उचितसेवा विप्रोचितसेवा तत्र विग्रहवाक्यं कथम् इति चिन्तनीयं विप्रोचितसेवा uh, अनन्तरं द्वितीयमस्ति क्षत्रियोचितसेवा क्षत्रियः uh, क्षत्रियस्य कृते यद् यद् कार्यम् उचितमस्ति तादृशसेवा विप्रस्य यद उचितम् अस्ति तादृशसेवा इत्युक्ते विप्रः तत्र सामान्यतया पाठनं करोति खलु इति कृत्वा विप्रवचत्सेवा इत्युक्ते तादृशसेवा यत्र अन्यस्य कृते वयं पाठनं कुर्मः अध्यापनं कुर्मः तेन तस्य निरन्तरं लाभः भवति यथा तत्र योगनिष्ठजीवनम् इत्यस्य विषये वयं पाठनं कुर्मः चेत् तदानीं सः पठित्वा तस्य स्वजीवने व्यवहारे आनयति इति कृत्वा तत्र तस्य जीवनं परिवर्तते इति कृत्वा तत् महत् कार्यं वर्तते अनन्तरं शत्रोचित् सेवा इत्युक्ते यः क कोऽपि क्लेश अनुभवति कुत्रचित् क्लेशम् अनुभवति तदानीं वयं तस्य सहायं कुर्मः इत्युक्ते तत्र बहिः अन्य अन्यः पुरुषः तस्य हानिं करोति तदानीं सः सः तस्य सहायं वयं कुर्मः चेत् तत्र तत्तु क्षत्रयोचित् सेवा अस्ति तत्र शारीरिकरूपेण शारीरि शारीरिकरूपेण अत्र अस्माकं बलं प्रयुज्य बलमुपयुज्य यदा सेवां कुर्मः तत् सेवा अनन्तरं वैशोचित् सेवा इत्युक्ते अन्यस्य कृते अन्नं दद्मः अथवा धनं दद्मः तत्तु क्षत्रियोचित् सेवा किं वैशोचित् सेवा अनन्तरं सूत्रोचित् सेवा नाम यदा वयं वैद्यालयं वैद्यालयं गत्वा तत्र यः रोगी अस्ति तस्य सेवां कुर्मः तदानीं तत्तु शारीरिक अत्रापि शारीरिकसेवा अस्ति शारीरिकसेवा अस्माकं श्रमः भवति तस्य अन्यस्य तत्र रोगिणः सेवां कुर्मः इत्येवं रीत्या तत्र सेवा सेवा इति वयं वदामः तत्र सेवा सेवा यदा वयं सेवां कुर्मः तदानीं किं भवति इति चेत् अस्माकं मनः वर्धते यः साधकः अस्ति सः निःस्वार्थसेवां करोति सः किमपि न अपेक्षते निस्वार्थसेवां करोति किमर्थं सेवां करोति इति इति इति चेत् अत्र जगति ये ये सन्ति अत्र जगति यत्किमपि अस्ति यः कोऽपि जीवः अस्ति सः तु परमपुरुषस्य सन्तानः एव अस्ति इति कृत्वा तस्य सेवां यदा कुर्मः तदानीं परमपुरुषः तृप्तः भवति परमपुरुषः तस्य तस्य सन्तोषः जायते इति कृत्वा यथा एक एका एका माता वर्तते तस्य पुत्राः सन्ति मातुः सकाशे धनं नास्ति पुत्रस्य पुत्र पुत्राणां कृते भोजनं दातुं तदानीं यदि कोऽपि आगत्य पुत्राणां कृते भोजनं ददाति तदानीं माता बहु सन्तुष्टा भवति ओ मम पुत्राः तत्र भोजनं मम पुत्राः भोजनं कृतवन्तः इति सन्तोषः सा सन्तोषम् अनुभवति ततः एव यदा परमपुरुषस्य सन्तानं प्रति यदा वयं सेवां कुर्मः तदानीं परमपुरुषः तृप्तः भवति अपि च ते तादृशतृप्तिद्वारा किं भवति इति चेत् अस्माकं मनः वर्धते वर्धते अस्माकं मनसि ये मलाः सन्ति मनसि तु बहवः मलाः भवन्ति खलु तत्र षट्रिपवः अष्टपाशाः भवन्ति तत्र भिन्नभिन्न रिपवः भवन्ति तेषां नाशः अपि भवति यदा तेषां नाशः भवति मनः मनः स्वच्छं भवति निर्मलं भवति यदा मनः स्वच्छं भवति निर्मलं भवति तदानीं प्र परमपुरुषस्य प्रतिबिम्बः स्पष्टतया तत्र मनसि प्रतिबिम्बितः भवति परमपुरुषः स्पष्टतया प्रतिबिम्बितः प्रतिबिम्बितं भवति तेन किं भवति इति चेत् अस्माकम् अग्रगतिः सुलभेन भवति अतः अत्र त्रयः अथवा त्रयः विषयाः मुख्यविषयाः सन्ति येन अस्माकम् अग्रगतिः भवति तत्तु अस्ति प्रणिपातः परिप्रश्नः अनन्तरं सेवा अस्माभिः अस्मिन् जगति सर्वदा समयस्य तत्र सम्यक्तया उपयोगः अस्माभिः करणीयः समयस्य व्ययः न कर्तव्यः अस्माभिः समयस्य सदुपयोगः कर्तव्यः तर्हि तदर्थं किं कर्तव्यम् इति चेत् तत् तत्र केवलम् अन्येन सह केवलं वार्तालापम् एवमेव वार्तालापं तत्र वार्तालापस्य विषये विषयः अस्ति यत्किमपि भवतु अन्य पुरुषस्य विषये वा अथवा धनस्य विषये वा अथवा लौकिकवस्तुनः विषये वा अथवा यत्किमपि एतादृशवार्तालापः यः भवति तादृशवार्तालापेन न कोऽपि लाभः तदा तादृशवार्तालापेन समयस्य व्ययः एव भवति अतः अस्माभिः समयस्य सदुपयोगः कर्तव्यः सदुपयोगः कर्तव्यः यदा एकनिमिषः अपि लब, लब्धः तदानीं तत्र परमपुरुषचिन्तनम् अस्माभिः करणीयम् अस्माभिः तादृशवार्तालापं वार्तालापम् वार्ता एव वार्तालापः एव अस्माभिः कर्तव्यः येन यः शृणोति तस्यापि लाभः अस्ति येन यद्वयं ये वदामः अस्माकमपि लाभः भवेत् तर्हि यदा वयम् अन्यस्य अन्ये अन्यस्य गत्वा वार्तालापं कुर्मः तदानीं विषयः किं भवेत् विषयः सर्वदा परमपुरुषः भवेत् अथवा योगनिष्ठजीवनम् इति विषयः भवेत् येन तस्यापि वर्धनं भवति तस्यापि लाभः भवति अस्माकमपि मनसि लाभः भवति इत्युक्ते वार्तालापः अपि एकरीत्या सेवा एव अतः तादृश तादृशसम्भाषणम् एव अस्माभिः कर्तव्यं येन सर्वेषां लाभः भवति अस्माकमपि लाभः भवति अतः केवलं तत्र गप्सप् इति यद्वयं वदामः तत्तु अस्माभिः न कर्तव्यमेव गप्शप् न कर्तव्यं तादृशवार्तालापम् एव तादृशवार्तालापः एव कर्तव्यः येन अस्माकं मनः अपि वर्धते अपि च यः शृणोति तस्यापि जीवनं सार्थकं भवति तस्यापि महान् लाभः भवेत् इति उक्त्वा अत्र अस्माकं करपत्रं प्रति गच्छामः अत्र कोऽपि संशयः अस्ति वा अस्तु तर्हि भगिनि मां पृश् इति वा न भगिनि अत्र संशयः अस्ति वा इति पृष्टम् ओके तर्हि इदानीं संशयः नास्ति चेत् तर्हि इदानीम् अस्माकं करपत्रं प्रति गच्छामः अस्माकं करपत्रम् अस्ति अयं संसारः कः इति विषयः तत्र अस्माभिः बहु किमपि चर्चितं तत्र किम् उक्तमिति चेत् अत्र अस्मिन् जगति सगुणभ्रमणा सृष्टिः किमर्थं कृता इति चेत् एतत्तु सगुणभ्रमणः लीला वर्तते लीला वर्तते येन अस्मिन् जगति प्रत्येकं जीवात्मा प्रत्येकं जीवात्मनः मुक्तिः भवतु इति अभिलाषया एव सगुणब्रह्मणा जगतः निर्माणं कृतम् इति अस्माभिः दृष्टं तदर्थम् अत्र सः सहायं करोति अपि च तत्र प्रकृतिः अपि अस्माकं सहायं करोति तदर्थमेव षड्वादनात् सृष्टिचक्रे षड्वादनात् द्वादशवादनपर्यन्तं अत्र सत्त्वगुणस्य प्राधान्यं भवति सत्त्वगुणस्य प्राधान्यं भवति येन वयं स्थूलात् सूक्ष्मपर्य सूक्ष्मपर्यन्तं गन्तुं शक्नुमः स्थूलात् सूक्ष्मपर्यन्तं गन्तुं शक्नुमः प्रतिसञ्चरधारायाम् अत्र सगुण सत्त्वगुणस्य प्राधान्यं भवति सत्त्वगुणस्य प्राधान्यं भवति चेत् तत्र अस्माकं सूक्ष्मं प्रति गन्तुं भवति प्रकृतिः अपि अस्माकं सौलभ्यार्थं तत्र सत्त्वगुणस्य प्राधान्यं ददाति प्रतिसञ्चरधारायाम् अपि च परमपुरुषः अपि अस्माकं सहायं करोति तदर्थं किम् अपेक्षितम् इति चेत् प्रथमतया तत्र अहं बन्धने अस्मि इति ज्ञानम् अपेक्षितमस्ति अहं बन्धने अस्मि इति ज्ञानं यदा अस्ति तदानीं मुक्ति आकाङ्क्षा भवति अस्तु इदानीम् अहं वन्दने अस्मि बन्धनं अग्रे बन्धनं मास्तु इति यदा आकाङ्क्षा मुक्ति आकाङ्क्षा भवति तदानीं सद्गुरुप्राप्तिः भवति सद्गुरुप्राप्तिः भवति सद्गुरुद्वारा अस्माभिः चेष्टा करणीया चेष्टा करणीया अग्रगतिं अग्रगतिं प्राप्तुं चेष्टा कथं क्रियते इति चेत् साधनाद्वारा क्रियते साधना इत्युक्ते तत्र चेष्टा यत्र तीव्ररीत्या तीव्ररीत्या अस्माकं मनसि परमपुरुषं प्राप्तुम् इच्छा भवति तीव्ररीत्या इच्छा भवति यदा तीव्ररीत्या इच्छा भवति तदानीम् अग्रगतिः अपि भवति तत्र तीव्रता भवेत् तीव्ररीत्या भवति तत्र योगनिश्च जीवने यः व्यस्तः भवति साधनां करोति प्रतिदिनं प्रातःकाले सायङ्काले द्विवारं साधनां करोति तादृश पुरुषः अवश्यम् अग्रगतिं प्राप्नोति अग्रगतिम् अवश्यमेव प्राप्नोति तदर्थं प्रथमतया बन्धने अस्मि इति ज्ञानम् अपेक्षितं तदनन्तरं तत्र साधनां कर्तुं या पद्धतिः वर्तते तस्यापि ज्ञानम् अपेक्षितमस्ति तर्हि एतादृश मुक्ति आकाङ्क्षा मुक्ति आकाङ्क्षा केवलं मनुष्याणां भवति न पशुनाम पशूनाम् अथवा अन्ये अन्यजीवानां किमर्थमेवम् इति चेत् केवलं तत्र केवलं मनुष्येषु एव चैतन्यं स्पष्टतया प्रतिबिम्बितं वर्तते अन्येषु जीवेषु चैतन्यं प्रतिबिम्बितं नास्ति स्पष्टतया प्रतिबिम्बितं नास्ति यतोहि ते तु शिष्यचक्रे षड्वादनात् दशवादनपर्यन्तं ते सन्ति तेषां मन मनः वर्धितं नास्ति इति कृत्वा तेषु तेषु एतादृश आकाङ्क्षा भवति मम मुक्तिः भवतु इति आकाङ्क्षा भवति तेषु इच्छापि न भवति परमपुरुषस्य प्राप्त्यर्थम् इच्छापि न भवति ते केवलं प्रकृतेः इच्छानुगुणं कार्यं कुर्वन्ति सहजवृत्तिद्वारा ते कार्यं कुर्वन्ति तावदेव ते ते कुर्वन्ति परन्तु मनुष्येषु एतादृश अवसरः अस्ति तत्र प्रतिबिम्ब चैतन्यं सम्पूर्णतया प्रतिबिम्बितम् अस्ति इति कृत्वा ते अग्रगतिं प्राप्तुं शक्नुवन्ति इति अस्ति इत्युक्ते तत्र अस्माभिः दृष्टं यत् सगुणब्रह्मणः मनसि एतद् तत्र भूममनसि जगत् कल्पना वर्तते जगत् कल्पना मात्रं वर्तते सगुणब्रह्मणः तु शरीरं नास्ति सगुणब्रह्मणः शरीरं नास्ति सगुणब्रह्मणः तत्र सगुणब्रह्मणः बहिः अन्यत् किमपि नास्ति सगुणब्रह्म तु अनादि अनन्तसत्ता वर्तते तस्य बहिः अन्यत् किमपि नास्ति तस्य शरीरस्य शरीर आधारः शरीराधारः नापेक्षितः सुगुणब्रह्मणः शरीरस्य आधारः नापेक्षितः अस्माकं तु अस्माकम् अस्मासु अपि कल्पना जायते अस्मासु अपि कल्पना जायते यदा रात्रौ वयं निद्रां कुर्मः तदानीं स्वप्नः आयाति तत्रापि कल्पना अस्ति अथवा अन्यथा अपि कल्पना भवितुमर्हति परन्तु अस्माकं तु शरीरम् अपेक्षितमस्ति शरीरे शरीरः शरीरम् आधाररूपेण अपेक्षितमस्ति अपि च मनसः आधारः भवति अस्माकं मस्तिष्कः मस्तिष्कः एव अस्माकं मनसः आधारः भवति यावत्पर्यन्तं मस्तिष्कः नास्ति शरीरं नास्ति तावत्पर्यन्तम् अस्माकं तु कल्पना न अपेक्षितं परन्तु सगुणभ्रमणः तथा नास्ति शरीरस्य अपेक्षा न वर्तते इति तदपि अस्माभिः दृष्टं तर्हि अन्तिम अन्तिमपरिच्छेदद्वयम् एकवारं पठित्वा करपत्रं समापयामः तर्हि अत्र किं सुचित्रभग्नि पठितुमिच्छति वा आं भगिनि भगिनी भवत्या स्क्रीन् न दृश्यते क्षम्यताम् अहं इदानीं प्रदर्शयामि इदानीं दृश्यते वा इदानीं न दृश्यते इदानीमपि आम् इदानीमस्ति इदानीं दृश्यते इतोपि सम्यक् एव यथा कः वा यथा सगुणब्रह्मणा स्वविचारतरङ्गेषु जगत् निर्मितं तथैव मनुष्याः अपि स्वविचारतरङ्गेषु द्रष्टुं शक्नुवन्ति प्रयागनगरे उपविश्य रामस्य कल्पनायाम् अथवा विचारतरङ्गेषु रामस्य चान्दनीचौक् नगरस्य सृष्टेः क्षमता केवलं क्षणिका एव केवलं तस्य कृते एव वास्तविकं च दृश्यते इति वयं पूर्वं दृष्टवन्तः अन्यपक्षे तु सगुणब्रह्मणः जगतः सृष्टिः वास्तविकी दृश्यते न तु क्षणिकी एवमस्ति यतोहि मनुष्याः सगुणब्रह्मणः सृष्टेः अंशत्वेन विचारप्रक्षेपणरूपेण निर्मिताः तेषाम् सह सापेक्षिकम् अस्तित्वम् अस्ति सगुणब्रह्म स्वस्य विचारप्रक्षेपणम् वास्तविकम् इति पश्यति अतः तस्मिन् विद्यमानेन जीवात्मना स्वाभाविकतया वास्तविकम् इति अनुभूयते अतः मनुष्याः सगुणब्रह्मणः विचारप्रक्षेपणं तथा तस्य जगत्सृष्टिं च यथासं मन्यन्ते रामस्य मनः तथा च तस्य प्रक्षेपणं स्वकल्पनायां सीमितं भवति रामस्य मनसः अन्ते श्या, श्यामस्य मनः कार्यं न करोति रामस्य मनसः अन्ते श्यामस्य मनः कार्यं न करोति रामस्य मनसि ये कल्पिताः विषयाः निर्मिताः ते विषयाः केवलं रामनैव द्रष्टुं शक्यते शक्यते रामेणैव रामेणैव द्रष्टुं शक्यते यावत्कालं पर्यन्तं रामः कल्पनावे कल्पनावशे तिष्ठति तावत् कालं रामः एव तान् विषयान् वास्तविकान् इति मन्यते श्यामस्य मनः रामस्य मनस्सः अन्तः नास्ति अतः श्यामः एतान् विषयान् वास्तविकान् इति न अनुभवति यदि श्यामस्य मनः रामस्य मनस्सः अन्तः तर्हि श्यामः रामस्य मनसः विचारतरङ्गेषु चान्दनीचौक् नगरस्य सृष्टिं दृष्टवान् स्यात् अपि च रामः इव चान्दनीचौक् नगरम् इति काल्पनिकसृष्टिमपि तथ्यात्मकं मन्यते स्मः मन्यते स्म यथा उदाहरणत्वेन पूर्वं दृष्टं यत् मनुष्यः स्वस्य मनः विस्तारयितुम् अथवा प्रक्षेपयितुं शक्नोति येन परस्य मनः स्वस्य गोचरस्य अन्तह आनेतुं शक्नोति तस्मिन् समये अन्ये अपि तस्य मनुष्यस्य कल्पनां दृष्ट्वा मायावीणः रज्जुयुक्तिः इव वास्तविकं मन्यन्ते अत्र विषयः अस्ति सगुणब्रह्मणः कल्पना अनन्तरं सामान्यमनुष्यस्य कल्पना तत्र कीदृशः भेदः वर्तते यद्वयं जानीमः एकं जगत् निर्मितमस्ति सगुणब्रह्मणः विचारतरङ्गेषु अतः सगुणब्रह्मणस्य कृते अन्य किमपि वस्तूनाम् आवश्यकता न अस्ति तस् विचारतरङ्गेषु एव जगत् जगतस्य जगत निर्माणं यथा पूर्वे उदाहरणे वयं दृष्टवन्तः तत्र कोपि जनः आसीत् रामः स्वस्य कल्पनायां प्रयाग्नगरे पृष्ट्वा अपि चान्दीचौक् नगरः कल्पनां कर्तुं शक्यते तत्र कल्पनायाः कृते तस्य कृते किमपि अन्य आवश्यकता न आसीत् सः एव कल्पना मध्ये तद् चान्दीचौक् नगरं निर्मितवान् परन्तु यत् सामर्थ्यं वा वर्तते तत्तु क्षणिका uh, एव क्षणस्य कृते वर्तते न uh, uh, वास्त वास्त uh, तु वास्तिक वास्तविकमपि अनुभूयते परन्तु केवलं रामस्य कृते एव यस्य कल्पना अस्ति तस्य कृते एव तद् वास्तविकमिति भवति परन्तु अन्यपक्षे तु सगुणब्रह्मणः यद् सृष्टिः अस्ति तदपि विचारतरङ्गेषु वर्तते परन्तु तत्तु सर्वेषां कृते एव वास्तविकी इति अनुभूयते अस्माभिः तत् क्षणिकी नास्ति तत्र अतः यद् मनुष्यस्य कल्पना सगुणब्रह्मस्य कल्पना तत्र भेदः वर्तते तत्र अन्य एकमस्ति शेषसृष्ट्या सह सापेक्षितमस्तित्वमस्ति तदहं न अवदति सगुणब्रह्म स्वस्य विचारप्रक्षेपणं वास्तविकम् इति पश्यति अतः जगति तद् वास्तविकी इति अस्माकम् अनुभवः वर्तते परन्तु यद् मनुष्यस्य विचारप्रक्षेपणं वा कल्पना अस्ति तादृशं तत्र किमपि सीमा वर्तते अतः यद् रामस्य मनसि अस्ति तदन्ये कोऽपि तद् ज्ञातुं न शक्नोति इदानीं रामः कल्पना करोति चेत् तत् केवलं रामस्य कृते भवति न तु अन्यस्य कृते भवतु रामस्यामः कोऽपि जनः अस्ति भवेत् अतः रामस्य मनसि किं प्रचलन् अस्ति तस्य विवरणं न वर्तते श्यामस्य कृते यद् कल्पनायां पश्यति तद् श्यामः न पश्यति न वास्तविकी मन्यते सः तु वर्तते एतत् तु कल्पना एव भवतः स्वप्नमिव तादृशं स्थितिः भवति अस्माकं कृते कुत्रापि जातं अस्तु अतः यद् रामः चान्दीचौक् नगरं कल्प काल्पनिकसृष्टिः अस्ति तद् केवलं रामस्य कृते एव सत्यम् इति अनुभूयते न अन्यस्य कृते यद्वयं पूर्वे अपि कदाचित् कोपि जनाः ते तेषां किमस्ति मनसि किमपि साधनां कृत्वा ते किमपि सामर्थ्यं प्राप्नुवन्ति तेन ते अन्यस्य मनस्य वश् वशीकरणं कर्तुं शक्यते परन्तु तदपि किम् अस्ति सीमितमस्ति क्षणिका अपि अस्ति तस्य मनुष्यस्य कल्पना दृष्ट्वा माया यदा मायाविनः ते किमपि दर्शयन्ति तत्सर्वं क्षणिका एव वर्तते न तु किं वक्तुं शक्नुमः सर्वस्मिन् समये तस्य कार्यं न भवति तदेव भगिनि धन्यवादः हा सम्यक् सम्यक् सम्यक् बहु समीचीनं भग् इत्युक्ते अत्र अत्र किम् अस्मिन् करपत्रे किम् एतावता किं दृष्टम् इत्युक्ते अत्र त्रयः स्तरः सन्ति प्रथमस्तरे अत्र सगुणब्रह्मा अस्ति तस्य मनसि तस्य स्वचित्ते भूमौ मनसि चित्ते कल्पना सृष्टिकल्पना जायते तस्यां कल्पनायां सर्वं जगत् वर्तते तत्तु अस्ति एकः सरः द्वितीयः सरः अस्ति मायावी अस्ति मायावी इति यः मानवः अस्ति यदि तस्य वशि वशिकारे जनाः आगच्छन्ति तदानीं तत्र मायावी किं करोति इति चेत् एतेषां जनानां ये, जनाना ये तस्य वशे आगतवन्तः तेषां चित्तं चित्तस्य वशं करोति तदानीं तत्र यद् मायावी प्रदर्शयति तदेव ते जनाः पश्यन्ति इति अत्र अस्ति द्वितीयः स्तरः परन्तु एतत्तु निरन्तरं नास्ति यथा परमपुरुषस्य सगुणब्रह्मणः कल्पना अस्ति तत्तु कल्पना तत्र सर्वदा वर्तते कल्पना क्षणिकी क्षणिकी इति नास्ति तादृशकल्पना परन्तु मायाविनः कल्पना तु क्षणिकी अस्ति सर्वदा वर्तते इति नास्ति यावत्पर्यन्तं मायावी जनानां चित्तस्य वशं करोति तावत्पर्यन्तमेव कल्पना भवति इति अत्र द्वितीयः स्तरः अस्ति तृतीयः स्तरः अस्ति यदा मनुष्यः तत्र स्वयं कल्पनां करोति स्वचित्ते स्वयं कल्पनां करोति तादृशकल्पना तु केवलं सः एव कल्पनां सः एव द्रष्टुं शक्नोति अन्य द्रष्टुं न शक्नोति एतादृशकल्पना तु क्षणिकी सर्वदा वर्तते नास्ति इति अत्र त्रयः सरः सरः सन्ति यद्यपि सगुणब्रह्मणः मनसि कल्पना जगतः कल्पना एव वर्तते सृष्टिकल्पना एव वर्तते तत्र तस्य मनसि विचारतरङ्गः भवन्ति सृष्टेः विचारतरङ्गः भवन्ति तत्र वास्तविकतया जगत् वर्तते इति नास्ति परन्तु ब्रह्मणः कल्पना एव अस्ति परान् परन्तु तथापि तत्र वयं जगत् मिथ्या इति न वक्तुं शक्नुमः यतोहि अस्माभिः तु जगतः अनुभवः अस्माकं तु जायते खलु जगतः अनुभवः अस्माकं जायते अतः जगत् मिथ्या जगन्मिथ्या इति तु वयं न वक्तुं शक्नुमः अनुभवः अस्ति प्रतिदिनम् वयं भोजनं कुर्मः यत्किमपि मम पुरतः अस्ति दोग तत्तु वास्तरिकं दृश्यते तर्हि यद्यपि सगुणब्रह्मणः कल्पना अस्ति परन्तु वयं तु सगुणब्रह्मणः अंशाः यथा सगुणब्रह्म कल्पनां पश्यति तथैव वयमपि कल्पनां पश्यामः अस्माकं कृते वास्तविकं दृश्यते यतोहि वयमपि तस्यां कल्पनायां वयं स्मः अस्माकं तु सापेक्षिक सत् सत्तात्वं सापेक्षिकं सत्यत्वं वर्तते इदं जगत् अस्य जगतः सापेक्षिकसत्यत्वम् अस्माकं तु वर्तते अतः वयम् अत्र दार्शनिकदृष्ट्या वयं तु जगत् मिथ्या जगन्मिथ्या इति वक्तुम् न शक्नुमः यतोहि अस्मिन् जगति कस्यचित् बुभुक्षा वर्तते चेत् तत्र तत् तत्र तु भोजनम् अवश्यं तेन ग्राह्यमेव खलु अत्र जगति कोऽपि बुभुक्षितः अस्ति तं प्रति वयं न वक्तुं शक्नुमः अत्र जगत् नास्ति किमर्थं भवतः बुभुक्षा वर्तते इति बुभुक्षा चेत् अस्माभिः भोजनं स्वीकार्यमेव इति कृत्वा अत्र अपि जगति वयं पश्यामः चेत् जनाः दुःखिताः सन्ति बहुत्र क्लेशाः जनाः क्लेशाः जनाः अनुभूयन्ते तर्हि एवम् अस्ति चेत् तान् प्रति वक्तुं न शक्नुमः जगत् इति तर्हि अत्र जगत अस्ति जगतः वास्तविकता जगतः सापेक्षिकसत्यत्वं वर्तते जगतः पारमार्थिकसत्यत्वं नास्ति परन्तु सापेक्षिकसत्यत्वं तु वर्तते एव अतः अस्माभिः जगति अस्माभिः वासं ग्राह्यं वासं स्वीकार्यं ी वासः स्वीकार्यः वासः स्वीकृत्य अस्माभिः किं वासं स्वीकृत्य किं कर्तव्यम् इति चेत् आध्यात्मिकजीवने अस्माकं प्रवेशः भवेत् आध्यात्मिकजीवने प्रवेशः यदा भवति तदानीं तत्र किं भवति इति चेत् तदानीं साधनां वयं कुर्मः साधनां कृत्वा तत्र सेवां से सेवामपि कुर्मः जगतः हितमपि कुर्मः एतत् सर्वं कृत्वा वयं यदा अग्रे गच्छामः तदानीम् अस्माकम् अग्रगतिः दशवादनात् द्वादशवादनपर्यन्तं पर्यन्तं सुलभेन जायते तदानीं तत्र यदा परमपुरुषेण ऐक्यं भवति तदानीं तत्र आ, तत्र एकम् एकं जायते ऐक्यं जायते ऐक्यं जायते तावत्पर्यन्तं जगत् वर्तते एव जगत, वर्त जगत नास्ति जगत् माया इति वक्तुम् न शक्नुमः यतोहि अस्माकं व्यवहारे तु जगत् दृश्यते अस्माकं तु वास्तविक यथा परमपुरुषस्य कृते कल्पना वर्तते अस्माभिः वयमपि तस् तस्यां कल्पनायां वयं स्मः अतः अत्र जगत् नास्ति इति वयं वक्तुं न शक्नुमः जगतः सापेक्षिकसत्यत्वं तु वर्तते अस्माकम् अत्र सिद्धान्तः कः इति चेत् आत्ममोक्षः आत्मनः मोक्षः जगतः हितः जगतः हितः अत्र तत्र द्वयमपि अपेक्षितमस्ति अस्माकम् अग्रगत्यर्थम् इति अत्र दत्तमस्ति इदानीं किञ्चित् अग्रे गच्छामः भगिनी भवत्याः कुत्रचित् क्लेशः आसीत् कुत्र भगिनी तत्र एव भगिनी शेषसृष्ट्या सह सापेक्षिकम् अस्तित्वमस्ति शेषसृष्ट्या इत्युक्ते जगत् वा जगत् जगत् आमां जगत् वा जगतः सः सापेक्षिकम् अस्तित्वम् सापेक्षिकस्तित्वम् अस्तु तर्हि इदानीम् अन्तिमपरिच्छेदः अस्ति किं सरलभगिनी पठितुमिच्छति वा अस्तु भगिनि एवं मनुष्याः अपि स्वविचारतरङ्गेषु वस्तूनि निर्मातुं शक्नुवन्ति परन्तु ते पूर्व अनुभवस्य प्रतीकृत्य एव सन्ति कृतयः प्रतिकृतयः कृतयः एव सन्ति मनुष्याः यस्य वस्तुनः स्वकल्पनायां सर्जनं कुर्वन्ति तस्य वस्तुनः अवश्यं दर्शनम् अथवा श्रवणम् स्यात् अस्ति ब्रह्मकारणरहितम् अस्ति ब्रह्म पूर्वं परं वा किमपि नासीत् अतः ब्रह्म नासी। स्वविचारतरङ्गेषु कस्यापि वस्तुनः प्रतिकृतिम् भवेत् कस्यापि वस्तु न प्रतिकृतिं कर्तुं समर्थं न इति तु नास्ति खादु ब्रह्म पूर्वं परं वा किमपि नासीत् अतः ब्रह्म स्वविचारतरङ्गेषु कस्यापि वस्तु न कर्तुं समर्थं न भवेत् अतः भ्रह्म विचारप्रचारप्रक्षेपाः प्रक्षेपाः प्रक्षे सर्वदा नवीनाः भवन्ति ते विचार प्र... प्रक्षेपाः मनुष्याणां कल्पनावत् पूर्वा अनुभवमाश्रिताः न सन्ति न च शक्यन्ते ब्रह्मण मनुष्याणां च अन्तिमः महत्वपूर्ण च भेदः क्षण धर्मे वा अस्त मनुष्याण धर्म साधना मुक्तपुरश पर सगुण ब्रह्म धर्म तो प्रत्येक जीवात्मुष्व प्राप्त अवसर दान वस्तु जगत अभी मनुष्याण निर्माण सगुण ब्रह्म प्रयास, सर्वा हा प्रयास हा क्लेश हा च तस्य प्रत्येकं जीवात्मनः मुक्ति अर्थं एव निर्देशितं निर्देशितः अस्ति so, मनुष्यः अपि यथा वयम् दृष्टवन्तः रामः विचारतरङ्गे प्रयागम् पृष्ट्वा चोकं दर्शितुम् शक्नोति मनुष्यः स्वस्य विचारतरङ्गेषु किं किमपि निर्मातुं शक् शक्नोति मनुष्यः परन्तु तस्य कृते तस्य पूर्व अनुभव अनुभवः भवेत् इति अस्ति यदि पूर्व अनुभवः अस्ति तदापि कल्पना कर्तुं शक्नोति साधु भगिनी कः वयं मनुष्यः न यत्किमपि वयं यस्य कस्यापि कल्पनां कुर्मः तत्तु तस्य संस्कारः अस्माकं पूर्वमस्ति तादृशविषयस्य एव अस्माकं कल्पना जायते अस्माकं संस्कारः नास्ति पूर्वम् अनुभवः नास्ति चेत् जानीमः किन्तु पूर्वजन्मात् इति संस्कारः अस्ति तत् इति भवितुमर्हति पूर्वजन्मनः संस्कारात् वा अस्मिन् जन्मनि संस्कारः यः इदानीं वयं न जानीमः किं मम पूर्वजन्मस्य इति जन्मनः इति संस्कारः इदानीं मम अनुभवः अस्मिन् जन्मनि किन्तु यदि कल्पना भवति तत् प्रायः पूर्वजन्मात् जन्म न अस्ति तद् आम् अस्तु इत्युक्ते अस्माकं पूर्वम् अनुभवः तस्य विषये नास्ति चेत् तादृशविषयस्य अस्माकं कल्पना न भवति इत्युक्ते पूर्वदृष्टस्य विषयस्य विषयं स्वी पूर्वं यद् विषयः यः विषयः दृष्टः तं स्वीकृत्य एवम् इदानीम् कल्पना भवति तस्य परिवर्तनं कृत्वा कल्पना जायते सो मनुष्य यस्य वस्तुनः स्वकल्पनायां सर्जनं कुर्वन्ति तस्य वस्तुना अवश्यं दर्शनम् अथवा श्रवणं स्यात् यथा यथा इदानीं वयम् उक्तवन्तः पूर्वं तस्य अनुभव दर्शनमात्रे वा श्रवणमात्रे वा पठनमात्रे इति भवेत् इति अवश्यं भवति मनुष्यस्य कल्पनाया कृते ्रह्मा कारण किन्तु ब्रह्म ब्रह्मा यत् सृष्टिः सृजनं करोति तस्य कारणरहितमस्ति सः कारणं ब्रह्म कारणरहितमस्ति सृष्टेः कर्ता कारणरहितम् अस्ति ब्रह्म पूर्वं परं वा किमपि नासीत् वयं ब्रह्म अनादि अनन्तः अस्ति तस्य पूर्वम् अनन्त अनन्तरं किमपि न अस्ति ब्रह्म स्वविचारतरङ्गेषु कस्यापि वस्तु न प्रतिकृतिं कर्तुं समर्थं न भवेत् इति uh, मम uh, क्लेशः अस्ति अवगमनस्य समर्थमस्ति ब्रह्म किन्तु आब्जेक्ट्स् इन् ब्रह्म कल्पना आर् आल् न्यू ओब्जेक्ट् इट्स् नाट् लैक् इट्स् नाट् लैक् युस् कापि दब्जेक्ट् फ्राम् संवेर् रैट् इस् नाट् एबल् टु कापि द आब्जेक्ट् फ्राम् संवेर् सो यत्किमपि तस्य यतोहि ब्रह्मणः बहिः किमपि नास्ति अस्माकं तु बहिः बहिः यद् वस्तु अस्ति तस्य आधारेण अस्माकं कल्पना भवति खलु पञ्चभूतेषु यद् निर्मितम् अस्ति तस्य एव किञ्चित् परिवर्तनं कृत्वा अस्माकं कल्पना जायते mm -hmm. परन्तु ब्रह्मणः ब्रह्मणः कल्पनायां हाय तस्य बहिः किमपि नास्ति ब्रह्म एव अस्ति सर्वत्र अतः तद् यत्किमपि तद् ब्रह्म सृजति तत्तु सः तु नूतनः विषयः अस्ति विषयः अस्ति यत्किमपि सृजति तत्तु नूतनः विषयः अस्ति अस्माकं कृते तु तथा नास्ति तत् सः समर्थम् न किमपि सृजनं कर्तुं समर्थं भवति स्रष्टुं समर्थः अस्ति परन्तु प्रतिक्रियां कर्तुं समर्थः नास्ति इत्युक्ते प्रतिकृतिः इत्युक्ते कापि कापि प्रतिकृतिः कापि अस्तु अस्तु इदानीम् अवगच्छामि अस्तु अतः भ्रमणविचारप्रक्षेपाः सर्वदा नवीनाः भवन्ति भ्रमणस्य कापि कल्पना आसीत् नूतन नूतन नूतनं भवति सदा सदा कल्पनायाः विषयः भवति तत्र यत् किमपि अस्ति विषयः सः नूतनः भवति इत्युक्ते बहिः अस्ति इति न बहिः किमपि दृष्ट्वा तत्र जीवन यतो हि मनुष्य मनुष्यः अस्ति किन्तु प्रत्येकं मनुष्यम् एक एकम् अपेक्षा द्वितीयं नूतन अस्ति इति भेदः अस्ति तत् तेषामपि अस्तु ते विचार अपेक्षाः प्र प्रक्षेपाः मनुष्याणां कल्पनावत् कल्पनावत् पूर्व अनुभवः आश्रिता नास्ति सो मनुष्यस्य कल्पना पूर्व अनुभवः आश्रितः अस्ति किन्तु ब्रह्म पूर्वानुभवः आश्रितः नास्ति इति स्वस्य कल्पना अस्ति किमपि भवितुं शक्नोति भ्रमणमनुष्याणां न अन्तिममहत्त्वपूर्णं च भेदः तेषां लक्षणे धर्मे वा अस्ति भ्रमणमनुष्याणां च अन्तिमः महत्वपूर्णं च भेदः किमस्ति भगिनि अस्तु अहं किञ्चित् वदामि भगिनि आम् ओके okay. अत्र uh, अस्मिन् परिच्छेद इत्युक्ते अत्र अन्तिमपरिच्छेदत्रयं वयं पश्यामः चेत् ब्रह्मणः अपि च जीवात्मनः अत्र कुत्र कुत्र साम्यं वर्तते कुत्र भेदः वर्तते इत्येव दत्तमस्ति अत्र mm -hmm. इत्युक्ते वयं जीवात्मनः विषये वयं पश्यामः चेत् जीवात्मा तु वस्तुतः जीवात्मनः अपि म मन जीव तत्र अपि मनः वर्तते खलु तत्र भो अणुमनः वर्तते ब्रह्मणः भूमामनः वर्तते ब्रह्मणः मनसि अपि त्रयः अंशाः सन्ति अहं तत्त्वं महत्तत्त्वं चित्तम् अस्माकं मनसि अपि त्रयः सन्ति इति तत्र साम्यं साम्यता वर्तते खलु अस्माक अस्माकं कृते तु तत्र शरीरम् अपेक्षितमस्ति मनसः कार्यार्थं भ्रमणः कथयितुं मनसः कार्यार्थं शरीरं नापेक्षितम् अपेक्षितमस्ति ना इति ना hmm. ना अस्ति इति इति ए तत्र साम्यता वर्तते खलु तदनन्तरम् अस्माकं यः जीवात्मा अस्ति तत्तु सः जीवात्मा तु परमपुरुषस्य प्रतिबिम्बः एव अस्ति अतः परमपुरुषस्य अंशः एव अस्ति अतः परमपुरुषस्य परमपुरुषे यादृशसामर्थ्यम् अस्ति तादृशसामर्थ्यं hmm. अस्माकमपि भवेत् अस्माकं तादृशसामर्थ्यं नास्ति अस्माकं जीवात्मनि ता तादृशसामर्थ्यं नास्ति यतोहि किमर्थं तादृशसामर्थ्यं नास्ति इति चेत् यावत्पर्यन्तं वयं तत्र पृथक् अस्तित्वं स्थापयामः तावत्पर्यन्तं तादृशसामर्थ्यं नास्ति यदा पृ पृथक् अस्तित्वं त्यजामः तदानीम् अस्मासु अपि तादृशसामर्थ्यमस्ति इति कृत्वा हा इति कृत्वा तत्र तदर्थमेव अस्माकं तु त्रयः स्तरः सन्ति प्रथमतया वयं पशवः तदनन्तरं वयं वीराः भवामः तदनन्तरम् अन्ततो गत्वा वयं देवाः भवामः यदा पशवः पशवः इत्युक्ते तत्र मनुष्यः जन्मना ते पशवः सन्ति जन्मना ते पशवः यतोहि तत्र यदा शिशुः जायते तदानीं तत्र शिशुः किं करोति शिशुः आहारनिद्रा एतदेव तत्र एव पशुजीवनमेव खलु शिशु शिश् शिशुवक्तायां पशुजीवनमेव करोति अतः आदो वयं तु पशवः वयं स्मः तदनन्तरं यदा अस्माकम् अन्तश्चक्षुः उद्घाटितः भवति तदानीं वयं वीराः भवामः यतोहि किमर्थं वीराः इत्युक्ते वयं सङ्घर्षं कुर्मः अग्रगतिं प्राप्तुं सङ्घर्षं कुर्मः इत्युक्ते प्रतिदिनं सङ्घर्षः अस्ति अस्माकं मनसि ये मलाः सन्ति तेषां निवारणार्थं प्रत्येकं दिनं वयं सङ्घर्षं कुर्मः अतः अरः तदानीं तत्र वयं वीराः भवामः तदनन्तरं तृतीयस्तरः अस्ति यदा वयं साधनां कृत्वा कृत्वा कृत्वा तत्र एव तत्र प्रतिष्ठां प्राप्नुमः तदानीं परमात्मना सह ऐक्यं यदा प्राप्नुमः तदानीं वयं देवाः भवामः अतः अस्माकम् एतादृश स्तरः सन्ति इति कृत्वा यदा वयं पृथक् अस्तित्वं स्थापयामः तदानीं वयं पशवः भवामः इति तत्र भेदः परमात्मा तु सर्वज्ञः अस्ति सर्वं जानाति अस्माकं तु तादृश सामर्थ्यं नास्ति वयं सर्वं न जानीमः वयं तु यदा एकस्मिन् स्थले वयं भवामः तत्र एव अस्माकं ज्ञानं भवति अन्यत्र किं जायते इति वयं न जानीमः खलु वयम् एक एकस्मिन् स्थले एव वयं तिष्ठामः चेत् तत्र एव किं जायते तदेव वयं जानीमः अन्यत्र इदानीम् अमेरिकादेशे किं जायते इति मया न मया न ज्ञायते यतोहि मम तु सर्वज्ञता नास्ति परन्तु परमपुरुषस्य महापुरुषस्य तु सर्वज्ञता तु अस्ति एव इति कृत्वा एतादृश अत्र अन्तिमपरिच्छेदे भेदः साम्यता अपि प्रदर्शितं आ, साम्यता प्रदर्शिता वर्तते परमपुरुषस्य शरीरस्य अपेक्षा नास्ति अस्माकं मनसः कार्यार्थम् आधारस्य अपेक्षा वर्तते mm -hmm. इति अत्र दत्तमस्ति अस्तु अन्तिमम् अस्ति तत् सद्गुणब्रह्मण इच्छति सर्वेषां जीवानां मुक्ति प्राप्तुं तस्य इति प्रयासः अस्ति किन्तु इति तु न भवति यावत्पर्यन्तं सर्वे जीवाः मुक्ताः न भवन्ति तावत्पर्यन्तम् Uh, सृष्टि प्रचलति भव प्रचलन् भवति इति प्रचलति भवति सत्यं प्रचलति भवति आमाम् अस्माकम् अपि च अस्माकम् अस्माकं कल्पना यदा भवति अस्माकमपि कल्पना भवति परमपुरुषस्य चित्ते अपि कल्पना अस्ति परन्तु अस्माकं कल्पना तु क्षणिकी अस्ति परमपुरुषस्य कल्पना तु तत्र निरन्तरं कल्पना जायते खलु तत्रापि भेदः अस्ति यदा तत्र कल्पना समाप्ता अस्माकं कृते तदानीं वयम् अवगच्छामः यत् इयं तु कल्पना आसीत् इति वयं वयं अस्माकं लक्ष्यं किम् अस्ति इति विस्मरामः अतः वयं स्वस्य लक्ष्यं न प्राप्तुं शक्नो अस्माकं लक्ष्यस्ति अनन्तेषा ईश्वरप्राप्तिः किन्तु यदि ईश्वरप्राप्तिः नास्ति तु अस् वयं पृथक् भाव इति अस्माकं यद्धर्मः भवति तदपि न्यूनं भवति विस्तृत न भवति यथा भ्रमण इति किमपि कर्तुं शक्नोति किमपि कल्पना पूर्वं सृष्टिं निर्मातुं शक्नोति किन्तु mm. वयं स्वयम् उपरि लिमिटेशन् आनयामः आमाम् अपि च अपि च वयं पश्यामः यत् अस्माकं तु बहिः बाह्यजगत् वर्तते बहिः वस्तूनि सन्ति mm -hmm. तेषां वस्तूनाम् अस्माकं ज्ञानं भवति इन्द्रियद्वारा परन्तु परमपुरुषस्य तु सगुणभ्रमणः तु इन्द्रियाणां कार्यं किमपि न मनसः कार्यार्थम् इन्द्रियाणाम् अपेक्षा नास्ति अपि <sahallah> <sah volcano नाम पेख्षा नास्ति>। mm -hmm. च ब्रह्मा यदा किमपि कस्यचित् सृष्टिं करोति अथवा कल्पनां करोति तदानीं सः तद्वस्तु नूतनमेव भवति अस्माकं तु तथा नास्ति अस्माकं तु बाह्यजगति यत्किमपि अस्ति तस्य एव कश्चित् भवति काम्बिटेशन् काम्बिनेशन् अस्माकं अस्तु खलु इति अस्ति वयं तु नूतनं किमपि स्रष्टुं न यत्किमपि जगति अस्ति तद् पूर्वं दृष्टं तस्य एव परिवर्तनं कृत्वा वयं कल्पयामः तावदेव नूतनं स्रष्टुम् अस्माकं सामर्थ्यं नास्ति परन्तु परमपुरुषः तु नूतनं स्रष्टुं शक्नोति अन्तिमभेदः कः इन्वेन्शन् वदामः तत् केवलं डिस्कवरी अस्ति सा इति अस्ति सत्यम् इति अपि च अस्माकं तु धर्मः अस्ति परमपुरुषस्य प्राप्तिः मुक्तिः अस्माकं धर्मः mm. अस्ति मुक्त्याकाङ्क्षा परन्तु तु परमपुरुषः mm. mm. mm. mm. mm. तु ब्रह्म तु सगुणब्रह्म तु मुक्तः सर्वदा मुक्तः अस्ति सर्वदा अस्ति ततः तेन मुक्तिः प्राप्तव्या इति नास्ति अस्माभिः तु मुक्तिः प्राप्तव्या इति कृत्वा अग्रगतिः अस्माकं कृते अस्ति अस्माकं कृते जगत् जगतः वास्तविकसत्यता वर्तते परमपुरुषस्य ब्रह्मणः जगत्तु कल्पना मात्रं वर्तते खलु इति एवं रीत्या अत्र वक्तुं शक्नुमः इति अत्र अयं संसारः इति करपत्रम् अत्र समाप्तम् अत्र सारांशरूपेण अत्र किं किं इति चेत् अत्र इदं जगत् वस्तुतः स्थूलं दृश्यते परन्तु वयं जानीमः अत्र जगतः सृष्ट्यर्थं यद् साम या सामग्री अस्ति सा सामग्री तु ब्रह्म एव अपि च वयं जानीमः इदं जगत तु सगुणब्रह्मणः चित्ते कल्पनारूप कल्पनारूपं वर्तते चित्ते उत्पन्नः विचारः वर्तते न तु बाह्यवस्तु अपि च अस्माभिः दृष्टं यत् मोक्षः पतनेन नलभ्यते लभ्यते किन्तु साधनया एव प्राप्तव्यः मोक्षः तत्तु कथं प्राप्तव्या साध, साधनाद्वारा प्राप्तव्या अपि च मोक्षः प्राप्तव्यः परमपुरुषस्य परमपुरुषं प्रति अस्माकं मनसि प्रेमभावः एव मोक्षस्य मूलं प्रेमभावः एव मोक्षस्य मूलम् अत्र प्रत्येकं जीवात्मा अनन्तरं परमात्मा द्वयोः अपि कारणं नास्ति द्वयमपि अनादि अनन्तसत्ता वर्तते ब्रह्म एव सर्वेषां जीवात्मनां समष्टिः अस्ति जीवात्मा, जीवात्मा पृथक् नास्ति अपि तु प्रतिबिम्बं भींब, प्रतिबिम्बः अस्ति जीवात्मा तर्हि विश्वस्य उत्पत्तिः इति वयं पश्यामः चेत् तत्र परमात्मनः सकाशात् आकाशः निर्मितः आकाशात् वायुः वायोः अग्निः अग्नेः जलं जलात् पृथ्वी इति एवं रीत्या जगतः निर्माणं ब्रह्मणः सकाशात् जगतः निर्माणं जातम् अत्र इदं जगत्तु ब्रह्मणः चित्ते अहं तत्त्वद्वारा कल्पना अस्ति यथा स्वप्ने यद् दृश्यं वर्तते वस् वास्तविकम् इति प्रतीयते तथैव ब्रह्मणः चित्ते यद् कल्पितं तत्तु वास्तविकम् इति अस्माकं कृते प्रतीयते अत्र विश्वस्य निर्माणाय अन्यः कोऽपि पदार्थः नास्ति अत्र सर्वं ब्रह्म एव सर्वं ब्रह्ममयं तत्र ब्रह्मविहाय अन्यत् किमपि नास्ति यः जडपदार्थः अस्ति लोके पाषाणखण्डः वस्तुतः सः पाषाणखण्डः अपि ब्रह्म एव यद्यपि स्थूलं पाषाणखण्डः स्थूलः दृश्यते परन्तु वस्तुतः ब्रह्म एव यथा यः ऊर्णनाभिः अस्ति स्वस्य एव पदार्थं स्वीकृत्य जालं निर्माति खलु ऊर्णनाभिः तथैव ब्रह्म अपि विश्वस्य निर्माणं ब्रह्मणा विश्वस्य निर्माणं कृतं स्वस्य सामग्रीं स्वमेव स्वीकृत्य स्वमेव स्वीकृत्य ब्रह्म विश्वरूपं धरति यद्यपि जगत् कल्पनारूपं वर्तते सगुणब्रह्मणः चित्ते जायमानं जायमाना कल्पना परन्तु अस्माकं कृते तत् तु सापेक्षिकसत्तत्व सत्ता सत्ता सापेक्षिकसत्यत्वं वर्तते तर्हि अन्ततो गत्वा निष्कर्षः कः इति चेत् सर्वं ब्रह्म सर्वं ब्रह्म एव सर्वं ब्रह्मरूपम् अत्र न किञ्चित् अस्ति तस, तस्मात् बहिः तस्मात् पृथक् तस, तस्व तस्मात् बहिः किमपि नास्ति अत्र अत्र योगदर्शनम् अस्माकं कृते किं वक्ति इति चेत् अस्माकं मार्द मार्गदर्शनं करोति यत् अत्र अग्रगतिं प्राप्तुं केवलम् अहं ब्रह्मास्मि इति पठनेन किमपि न जायते वयं बहुवारं पठामः अहं ब्रह्मास्मि अहं ब्रह्मास्मि तत्त्वमसि एतत् सर्वं पठामः केवलं पठनेन लाभः नास्ति अस्माकं ये ऋषयः पूर्वम् आसन् ते अपि साधनायमेव मग्नाः आसन् इति वयं जानीमः साधनाद्वारा एव ते अग्रगतिं प्राप्तवन्तः अतः योगदर्शनम् अस्माकं मार्गदर्शनं कर् करोति यत् अत्र मोक्षप्राप्तिः मोक्षप्राप्तिः साधना साधनाद्वारा भवति तदर्थं तत्र अस्माकं सिद्धान्तः आत्ममोक्षः आत्मनः मोक्षः जगतः हितं द्वयमपि अपेक्षितमस्ति अग्रगतिं प्राप्तिं प्रा अग्रगतिं प्राप्तुम् इति अत्र अस्ति इदानीम् अत्र प्रिया भगिन्या न पठितं तत्र अग्रिमकरपत्रं भवति किञ्चित् गच्छामः एकं परिच्छेदं स्वीकरोतु भगिनी प्रिया भगिनी पठितुं शक्नोति वा आं भगिनि आङ्ग्लभाषाया एव वा हू एम् ऐ एण्ड् वाट् एम् ऐ ह्यूमन् द लास्ट् स्टेज् एकक्षणं तत्र क्षम्यतां क्षम्यतां मया तु आङ्ग्लभाषां स्थापितमासीत् हा दृश्यते वा आं भगिनि दृश्यते टापिक् आसीत् हू आर् ऐ अण्ड् वाट् आर् ऐ सृष्टेः सञ्चर अहं कोऽहम् अहं कोऽहं किञ्च सृष्टेः सन् सञ्चरक्रमे मनुष्याः अन्तिमस्थानम् आह्व आवह आवहन्ति आवहन्ति सगुणभ्रमणः ब्रह्माण्डशरीरात् प्राप्तैः पञ्चभिः मैल् पञ्चभिः मौलिकभूतैः मनुष्याणाम् शरीरं निर्मितं वर्तते तस्मिन् भौतिकशरीरे चैतन्यम् पूर्णतया स्पष्टतया च प्रतिबिम् भी, प्रतिबिम्बितम् अस्ति चैतन्यस्य एषा स्पष्टाप्रतिच्छाया एव अनुचैतन्यम् अथवा जीवात्मा अस्ति यत् पाञ्चभौतिकशरीरम् एताम् प्रतिच्छायाम् प्राप्नोति तत् मानवशरीरम् इति कथ्यते एवम् मनुष्यस्य अणुचैतन्यम् जीवात्मा शरीरम् च वर्तते एतयोः द्वयोः अपि उपभोक्ता मनुष्यः इति कृत्वा सः ताभ्याम् भिन्नः अस्ति इति ज्ञायते यदि मनुष्याः जीवात्मनः आसन् तर्हि तदात्मा मम आत्मा इति ते स्वीकर्तुम् न शक्नुवन्ति वैकल्पिकरूपेण च यदि ते केवलम् शरीराणि एव आसन् तर्हि ते एतत् मम शरीरम् इति वक्तुम् न शक्नुवन्ति अतः ते एतयोः भिन्नाः सन्ति मन, मनु मनुष्येषु अन्या सत्ता अस्ति या आत्मशरीरयोः स्वामित्वम् स्वीकरोति सा अन्या सत्ता आत्मदेहयोः च स्वामिनी इति भासते तर्हि का सा अन्या सत्ता सो so, वयम् पूर्वम् दृष्टवन्तः यत् सृष्टेः सर्वम् सञ्चार सञ्च सञ्चरक्रमेः मनुष्यः एव अन्तिमस्थानम् आह्व आवहन्ति आह इत्युक्ते प्रथमं क्रीडा सा अन्य जन्तु तदैव भूत्वा अनन्तरमेव मनुष्यजन्मं प्राप्नोति इति वयं पूर्वमपि दृष्टवन्तः so, uh, सो मनुष्यशरीरं कथं निर्मियते इत्युक्ते पञ्च भूतानि uh, पञ्चभूतानि uh, योजयित्वा एव सगुणभ्रमः तस्य स्वस्य शरीरात् स्वस्य शरीरात् एव आगच्छति एता एतानि पञ्चभूतानि अपि तैः एव मनुष्य भौतिकशरीरमपि निर्मितम् इति निर्मितम् तत्र चैतन्यं तस्मिन् शरीरे चैतन्यम् अस्ति मनुष्य मनुष्यशरीरे मनुष्यस्य शरीरे चैतन्यमस्ति तत् चैतन्यम् अपि तस्मिन् भौतिकशरीरे यत् यं चैतन्यम् अस्ति तत् अपि पूर्णतया भ्रमणस्य प्रतिबिम्बम् एव अस्ति तद् ब्रह्मणः ब्रह्मणः एव ब्रह्मणस्य ब्रह्मणः प्रतिबिम्बम् एव अस्ति सो यः यः नो यं यः यं चैतन्यं दृश्यते तद् ब्रह्मणः प्रतिछाया अस्ति अन्य नाम अस्ति जीवात्मा इति नो चेत् अणुचैतन्यम् इति इत्युक्ते ब्रह्मणः यत् चैतन्यं ब्रह्मणः चैतन्यं तु तदेव परमम् अस्ति एतानि सर्वाणि मश एतानि सर् चैतन्य चैतन्यानि एव किल ए चैतन्यानि सर्वे अनुचैतन्यम् एव एका छाया अस्ति प्रतिछाया अस्ति अपि च अन्यनाम अस्ति जीवात्मा इति एतत् एषः मानवशरीरः एतद् मानवशरीरम् एतत् मानवशरीरं शरीरः शरीरम् एतत् समक्षम्यताम् एतत् मानवशरीरमस्ति एतत् मानवशरीरम् अपि पञ्च पञ्चभौतिकशरीरस्य प्रतिछाया एव न न प्रतिछाया नास्ति पञ्च पञ्चभा पञ्च पञ्चभौतिकभौतिकनिर्मितशरीरं पाञ्चभौतिकेभ्यः निर्मितं शरीरम् सो एतां प्रतिच्छायां प्राप्नोति अस्तु सो सो पाञ्चभौतिकशरीरम् एतां प्रतिच्छायाम् एतां प्रतिच्छायाम् इत्युक्ते जीवात्मस्य प्रतिछायां वा न न न परमपुरुषस्य प्रतिच्छायां वा नै नो चेत् पञ्चभूतस्य शरीरं शरीरं यदस्ति पञ्च पाञ्चभौतिकैः निर्मितं शरीरं परमपुरुषस्य प्रतिछायां पर प्राप्नोति इत्युक्ते तत्र जीवात्मरूपेण so uh, a body made of these rudimentary factors uh, uh, gets the reflection of that consciousness that the body becomes the adhara for that as uh, to begin so uh, purva pur, uh, mm, puram yasuktam tatvakyam tatvakyesya uh, of another angle as the at m ha am buddy परमपुरुषस्य या या प्रतीच्छाया वर्तते अथवा प्रतिबिम्बः अस्ति परमपुरुषस्य यः प्रतिबिम्बः तस्य आधारः कुत्र भवति इति चेत् शरीरे भवति सो अस्तु सो शरीरे परमपुरुषस्य प्रतिबिम्बं पञ्चभौतिकशरीरे प्रतिबिम्बं भवति सो एवं मनुष्यस्य अनुचैतन्यं जीवात्मा शरीरं च वर्तते अनुचैतन्यं शरीरं च वर्च वर्तते सो तत्र द्वयम् अस्ति मनुष्यस्य शरीरमस्ति अनुचैतन्यम् अपि अस्ति सो तत्र द्वयमपि परब्रह्मणः प्रतिच्छाया एव एतयोः द्वयोः अपि उपभोक्ता मनुष्यः इति कृत्वा सः ताभ्यां भिन्नः अस्ति इति ज्ञायते इदानीं शरीरस्य अपि च अनुचैतन्यस्य आत्मा जीवात्मा यत्र तेन चैतन्यम् प्राप्नोति तत् अपि मनुष्यः एव भोग भोक्ता अस्ति अतः वयं ज्ञातुं शक्नुमः द्वयमपि भिन्नः अस्ति इति ज्ञातुं शक्नुमः यदि मनुष्याः जीवात्मनः आसन् तर्हि तदात्मा मम आत्मा इति ते स्वीकर्तुं न शक्नुवन्ति यदा हा यदा जीवात्मनः साक्षात् यदा मनुष्याः जीवात्मनः आसन् स यः एक एकमनुष्यः स्वीकुर्मः तस्य जीवात्मनः एव इति चेत् सः तर्हि तदात्मा मम आत्मा इति ते स्वीकर्तुं न शक्नुवन्ति ीत्या मया न अवगतं भगिनि मनुष्यः जीवात्मनम् साक्षात् जीवात्मनः न इत्युक्ते मम आत्मा इति वयं व्यवहारं न कर्तुं शक्नुमः यदा जीवात्मा एव अहम् इति अस्ति चेत् मम आत्मा इति व्यवहारः न भवति मम शरीरमिति व्यवहारः अपि न भवति इत्युक्ते अन्ततो गत्वा एतेषां सर्वेषां स्वामीकः इति चेत् कश्चन कश्चन अन्यः अस्ति यः जीवात्मनः भिन्नः यः शरीरात् भिन्नः सा सत्ता एव परमात्मा सा सत्ता एव परमात्मा वदतु वदतु वदतु मनुष्यः एतत् मम शरीरम् अति अपि न वक्तुं शक्नोति एतत् मम न न अपि न वक्तुं शक्नोति न न सः वक्तुं शक्नोति सः वक्तुं शक्नोति केवलम् अहम् इत्युक्ते तत्र अहम् इत्यनेन अहम् इत्यनेन यदा वयं वदामः तत्र मम मम इति यदा वयं वदामः मम इत्युक्ते मम इत्युक्ते तत्र कश्चन स्वामी अस्ति इदानीम् अहं वदामि मम शरीरम् इत्युक्ते शरीरम् अहं नास्मि अहं शरीरात् भिन्नः शरीरात् भिन्नः अहं तर्हि तर्हि मम इति व्यवहारः अस्ति स्वस्वामीभावः यत्र भवति तत्र एव मम इति व्यवहारः अस्ति खलु अतः यदा वयं वयं वदामः मम शरीरं मम आत्मा इति वयं वदामः चेत् आत्मनः शरीरात् भिन्नः कश्चन अस्ति इति अवगम्यते खलु भिन्नसत् भिन्नसत्ता अस्ति इति अवगम्यते खलु नो इदानीम् अहं वदामः मम पुस्तकम् इति वयं वदामः अहं वदामि चेत् तदानीं पुस्तकं भिन्नम् अस्ति अहं भिन्ना अस्मि खलु मम पुस्तकम् इति वदामः एव वदामि मम आत्मा इति वदामि चेत् तत्र मम इति कः अस्ति अन्य सत्ता अस्ति खलु आम् आम् आम् इति एव तत्र उक्तमस्ति अग्रिम अरे वाक्ये आगच्छति वैकल्पिकरूपेण च यदि ते केवलं शरीराणि एव आसन् तर्हि ते एतत् मम शरीरमित वक्तुं न शक्नुवन्ति आम् भगिनी सो अतः ते एतयोः भिन्नाः सन्ति सो so, मनुष्याः शरीरः केवलं शरीरः न केवलं जीवात्मा केवलं शरीरः न तस्य भिन्नः एव मनुष्येषु अन्या काचित् सत्ता अस्ति या आत्मशरीरयोः स्वामित्वं स्वीकरोति सो सो मनुष्येषु विहाय अन्य एका एका सत्ता अस्ति तद् एव मनुष्येषु आत्मशरीरशरीरं विहाय आत्म आत्मानं विहाय शरीरं विहाय अन्या सत्ता वर्तते hmm. hmm? तदेव uh, स्वामि तदेव स्वामी स्वामित्वं स्वीकरोति तदेव वस्तुतया स्वामी अस्ति सा सत्ता एव स्वामिनी वर्तते hmm? हा सा अन्या सत्ता आत्मदेहयोः स्वामिनी इति भासते तर्हि hmm. कासा सा अन्या सत्ता सो इदानीं वयं मम शरीरं मम जी मम जीवात्मा इति वक्तुं शक्नुमः किन्तु तत् साक्षात् मम शरीरमस्ति वा मम आत्मा अस्ति वा न तत् शरीरमपि कृतं परब्रह्म परब्रह्मणा कृतम् अपि पञ्च पञ्च भूते पञ्चभौतिकशरीरमस्ति जीवात्मा अपि तत्र प्रतिछाया अस्ति परम चैतन्यं परमचैतन्यस्य अनुचैतन्यम् अस्ति एतत्तु अनुचैतन्यस्य अतः तस्य नाम जीवात्मा इति वक्तुं शक्नुमः किन्तु द्वयोः भिन्नः द्वयोः भिन्ना एका एका सत्ता अस्ति इति अग्रे पश्यामः समीचीनं भगिनी समीचीनम् इत्युक्ते तत्र तत्र वयं जानीमः आदौ ब्रह्म एव आसीत् प्रकृतिपुरुषः सप्ताद्वयम् एव आसीत् तदानीं यदा प्रकृतेः प्रभावः भवति पुरुषस्य उपरि तदानीं सिष्टिचक्रं जायते तदानीं तत्र सञ्चरधारा जायते सञ्चरधारायां सूक्ष् सूक्ष्मात् स्थूलपर्यन्तं गमनं क्रमेण तत्र भूमा भूममनः जायते तदनन्तरं पञ्चभूतानि जायन्ते तदनन्तरं षड्वादने तत्र किमस्ति तमोगुणस्य प्रभावः यदा अधिकः भवति तदानीं क्षितितत्वात् जीवः निर्मितः भवति यदा अनुकूलवातावरणं वर्तते तत्पश्चात् किं भवति तत्र जीवस्य मनः अपि भवति अनुमनः अपि अस्ति खलु क्रमेण जीवानां वर्धनं भवति तत्र सङ्घर्षद्वारेण सङ्घर्षद्वारा क्रमेण जीवानां वर्धनं भवति तदनन्तरं तत्र सस्यानि पशवः तदनन्तरं दशवादने मनुष्याः आगच्छन्ति मनुष्येषु तत्र कः सामर्थ्यं किं सामर्थ्यम् इति चेत् मनुष्येषु चैतन्यं स्पष्टतया प्रतिबिम्बितम् अस्ति यतोहि तेषां मनः तादृशमस्ति ता तेषां मनसि तादृशसामर्थ्यम् अस्ति यत्र परमपुरुषस्य चैतन्यस्य चा, प्रतिबिम्बं प्रतिबिम्बः स्पष्टतया भवति स्पष्टतया भवति यदा मनः स्वच्छम् अस्ति तदानीं चैतन्यस्य प्रतिबिम्बः स्पष्टतया भवति यथा तत्र आ, मार्गे यदा तत्र जलं जल, जल जला, जलाशयः अस्ति जलाशयः स्वच्छः अस्ति चेत् तदानीं तत्र रात्रौ चन्द्रस्य प्रतिबिम्बः स्पष्टतया जायते परन्तु जलाशये तत्र मलिनाः सन्ति चेत् तदानीं चन्द्रस्य प्रतिबिम्बः स्पष्टतया न भवति खलु एवम् अस्माकं मनसि अपि तादृशसामर्थ्यम् अस्ति मनः स्वच्छं भवति चेत् परमपुरुषस्य प्रतिबिम्बः स्पष्टतया तत्र जायते तर्हि अस्माकं अत्र अस्माक आशा जायते परमपुरुषस्य प्राप्त्यर्थं मनुष्येषु एव एतादृशविलक्षण आशा वर्तते विलक्षणा इच्छा वर्तते अनन्तेषण इति इच्छा वर्तते अस्य विषये अस्माभिः पूर्वं बहु चर्चितमस्ति तर्हि प पशूनां कृते तादृशं नास्ति ते तेषां तु अनन्तेषणा नास्ति तेषां तु केवलं तत्र किम् आहारनिद्राभयमैथुनम् इति एव अस्ति तत्र पशुधर्माः परन्तु मनुष्येषु अत्र चैतन्य चैतन्यं स्पष्टतया प्रतिबिम्बितमपि वर्तते अस्मासु अनन्तेषणा अपि वर्तते इति कृत्वा आ, तत्र अस्माकम् अग्रगतिः भवितुम् अर्हति यदा अन्तश्चक्षुः उद्घाटितः भवति तदानीम् अग्रगतिः भवितुम् अर्हति अस्य विषये अग्रे चर्चा जायते परन्तु अस्मिन् परिचयेदे किम् उक्तम् इति चेत् अस्मासु किम किम् अस्ति इति वयं पश्यामः चेत् अस्माकं मानवशरीरमस्ति यत्तु पञ्चभूतैः निर्मितं वर्तते अस्मासु मनः वर्तते अस्मासु जीवात्मा अस्ति अपि च जीवात्मनः अपि पृथक् अन्य अन्यासत्ता वर्तते का स सत्ता इति अत्र अग्रे उच्यते इत्युक्ते शरीरमस्ति अस्ति जीवात्मा अस्ति जीवात्मनः अपि पृथक् अन्या सत्ता वर्तते किमर्थम् अन्या सत्ता वर्तते कतम जानीमः अन्या सत्ता वर्तते इति चेत् अस्माकम् अस्माकं व्यवहारः अस्ति व्यवहारः वयं वदामः मम मम आत्मा मम शरीरम् इति वयं वदामः तत्र ममः मम इति यद्वदामः तत्र तेन अन्या सत्ता वर्तते इति अस्माभिः ज्ञायते खलु तर्हि जीवात्मनः अपि पृथक् अन्या सत्ता वर्तते सा सत्ता का इति अत्र प्रश्नः तस्य विषये अग्रे अग्रे उच्यते ओके अत्र स्पष्टता अस्ति वा भगिनी तत्र वक्तुं शक्नुमः जीवात्मा वक्तुं शक्नोति एतत् मम अपि च शरीरः अपि वक्तुं शक्नोति एतत् मम जीवात्मा इति केवलं मम मम इति न शरीरं वक्तुं शक्य कथं वयं शरीरं कथं वदति मम अस्माकं व्यवहारः कथमस्ति यदा वयं वयं व्यवहारं कुर्मः बि से इट् इस् मै बाडि बाडिस् मै बाडि मिसेट् इस् मै बाडि we don't say body is atma we don't say atma's body yes and right? we, say we say my, my body atma. we say my atma right that who is that my hmm. who is that my is a question that means there is some hmm. other entity which is giving relationship of this these two hmm. Hmm. Hmm. right so that is what we are trying to understand who is that another entity that another entity is that parmatma hmm right which is claiming but, ownership of everything yes but the person who's speaking is me when i say who is it my... me <laughs> who is me <laughs> aham tatva i think that is <laughs> yeah so so when when you are saying when when, when you are talking my and my you are first year thinking that it is priya baghini who is claiming the ownership actually that okay. is there is something beyond that priya baghini priya baghni is It's just that mind, right? Mm. It is the influence uh -huh. of the mind which is claiming the ownership of everything, right? Mm. As mind. But there is somebody beyond that. There is somebody beyond the mind. There is somebody beyond the body. There is somebody beyond Jivatma. Mm. That is what you're trying to understand. Hmm? Mm. Avogatavati, Va? Yes, Maham, Va? Yes, Maham, Va? धन्यवाद अत्र इतोपि अग्रे अधिकम् उच्यते भगिनी अस्मिन् विषये इदानीं स्वस्थता नास्ति चेत् चिन्ता नास्ति केवलं प्रथमपरिच्छेदः एव पठितः अग्रे तत्र प्रश्नमेव अस्ति किला तर्हि का सा अन्या सत्ता इति पश्यामः अस्तु अस्तु तर्हि धन्यवादः समयः अतीतः धन्यवादः भगिनि धन्यवादः धन्यवादः